गरुडपुराणम् आचारकाण्डम् अध्यायं 233 हण्ड्रेड् अण्ड् तर्टि त्री सूत उवाच स्तोत्रं तत् सम्प्रवक्ष्यामि मार्कण्डे जनभाषितं दामोदरं प्रपन्नोऽस्मि किन्नो मृत्युकरिष्यति शङ्खचक्रधरं देवं व्यक्तरूपिणमव्ययम् अधोक्षजं प्रपन्नोऽस्मि किन्नो मृत्युकरिष्यति वराहं वामनम् विष्णुनारसिंहं जनार्दनम् माधवम् च प्रपन्नोऽस्मि किन्नो मृत्युकरिष्यति पुरुषम् पुष्करक्षेत्रबीजम् पुण्यम् जगत्पदिम् लोकनाथम् प्रपन्नोऽस्मि किन्नो मृत्युक्करिष्यति सहस्रशिरसम् देवम् व्यक्तता व्यक्तम् सनातनम् महायोगं प्रपन्नोऽस्मि किन्नो मृत्युकरिष्यति भूतात्मानं महात्मानं यज्ञ योनिमयोनिजं विश्वरूपं प्रपन्नोऽस्मि किन्नो मृत्युकरिष्यति इत्युदीरितमाकर्ण्यस्तोत्रं तस्य महात्मनुः अपयात्तस्ततो मृत्यु विष्णुदुधै प्रपीडितः इति तेन जिदो मृत्युर्मार्कण्डेयेन धीमदा प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् मृत्युष्टकमिदम् पुण्यम् मृत्युप्रशमनम् शुभम् मार्कण्डेयहितार्थाय स्वयम् विष्णुरुवाच युद्धम् यः पठति भक्त्या त्रिकालम् नियतम् शुचिः ना काले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः कृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमप्रमेयं विचिन्त्य सूर्या तदिराजमानं मृत्युं संयोगी चितवांस्तथैव इति श्रीकारुडे महापुराणे मृत्युष्टकस्तोत्रम् नाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः ओम् अध्यायम् 234 सूत उवाच वक्ष्येथमच्युतस्तोत्रम् शृणुशौनग सर्वदम् ब्रह्मा पृष्ठो नारदाय यथोवाच तथा परम् नारद उवाज यथाक्षयोव्ययो विष्णुस्तोतव्यो वरदो मया प्रत्यहम् चार्चनाकाले तथा वक्तुमर्हसि ते सुजन्मानस्ते हि सर्व सुखप्रदाः जीवितम् जीवितं ये स्तुवन्ति सदाच्युदं च्युतम् मुनेस्तोत्रं प्रवक्ष्यामि हि वासुदेवस्य मुक्तिदं शृणु येन स्तु पूजाकाले प्रसीदति ॐ नमो भगवदेवासुदेवाय नमः सर्वापहरिणे नमो विशुद्धदेहाय नमो ज्ञानस्वरूपिणे नमः सर्वसुरेशाय नमः श्रीवत्सधरिणे नमश्चर्मासिंहस्ताय नमः नमो विश्वप्रतिष्ठाय नम नमो नृसिंहरूपाय वैकुण्ठाय नमो नमः नमः नमः क्षीरोदचायिने नमः नमो नागाङ्गायिने नमः नमः क्षत्रान्धकारिणे नमः सत्यप्रतिज्ञाय ह्यचिताय नमो नमः नमः त्रैलोक्यनादाय नमश्चक्रधराय च नमः शिवाय सूक्ष्माय पुराणाय नमो नमः नमो वामनरूपाय बलिराज्यापहारिणे नमो यज्ञवराभाय गोविन्दाय नमो नमः नमस्ते परमानन्द नमस्ते परमाक्षर नमस्ते ज्ञानसद्भावनमस्ते ज्ञानदायक नमस्ते परमद्वैत नमस्ते पुरुषोत्तम नमस्ते विश्वकृद्देव नमस्ते विश्वभावन नमस्ते स्ताद्विश्वनाथ नमस्ते विश्वकारण नमस्ते मधुदैत्य अग्न नमस्ते रावणान्ध नमस्ते कंसकेशिघ्न नमस्ते कैडभार्दन नमस्ते शतपत्राक्ष नमस्ते गरुडध्वज नमस्ते कालनेमिघ्न नमस्ते गरुडासन नमस्ते देवगीपुत्र नमस्ते वृष्णीनन्दन नमस्ते रुक्मिणीकान्द नमस्ते दिधिनन्दन नमस्ते गोकुलावास नमस्ते गोकुलप्रिय जय गोपबुकृष्ण जय गोपीजनप्रिय जय गोवर्धनाधार जय गोकुलवर्धन जय रावणवीरज्ञ जय चाणूरनाशन जय वृष्णिकुलोद्योद जय कालीयमर्दन जय सत्यजगत्साक्षिन् जय सर्वार्थसाधका जय वेदान्त विद्वेद्य जय सर्वतमाधवा जय सर्वाश्रया व्यस्कृत जय सर्वगमाधव जय सूक्ष्मचिदानन्द जय चित्तनिरञ्जन जयस्तेऽस्तु निरालम्ब जय शान्दसनादन जय नाद पूज्य जय विष्णो नमोऽस्तु दे त्वम् गुरुस्त्वम् हरे शिष्यस्त्वम् दीक्षा मन्द्रमण्डलम् त्वम् न्यास्तसमुद्रा समयास्त्वम् च पुष्पादिसाधनम् त्वमाधारस्त्वम् ह्यनन्दस्त्वम् कूर्मस्त्वम् धराम्भुजम् धर्मज्ञानादयस्त्वम् हि वेदिमण्डलशक्तयः त्वम् प्रभो चलभृद्रामस्त्वम् पुनः स करान्दकः ब्रह्मर्षिश्च देवस्त्वम् विष्णुः सत्यपराक्रमः त्वम् वराखस्त्वम् धराधरः त्वम् सुपर्णस्तदा चक्रम् त्वं गदा शङ्ख त्वं श्रीप्रभो त्वम् मुष्टिसत्त्वम् त्वम् माला देवशावधि श्रीवक्तकौस्तुभस्त्वं हि शार्ङ्गो च तथे शुधिः त्वम् खट्गचर्मणः सार्धम् त्वम् दिक्पालास्तथा प्रभो त्वं वेधास्त्वम् ीथात्वं यमस्त्वम् हुदाशनः त्वम् धनेशस्त्वमीशानस्त्वमिन्द्रस्त्वमवाम्पदिः त्वम् रक्षोऽधिपतिः साध्यस्त्वम् वायुस्त्वम् निशाकरः आदित्यावसौ रुद्रा अश्विनौ त्वम् मरुद्गणाः त्वम् दैत्यादन वा नागास्त्वम् यक्षा गन्धर्व्या गन्धर्वाप्यरसः सिद्धापिदरस्त्वम् महामराः भूतानि विषयत्वम् चित्त्वमव्यक्ते त्वमव्यक्तेन्द्रियाणि च मनोबुद्धिरहङ्कारः क्षेत्रज्ञस्त्वम् हृदीश्वरः त्वम् यज्ञस्त्वम् वशत्कारस्त्वमोङ्कारसमित्कुशाः त्वम्वेदीत्वं हरेदीक्षात्वं यूपस्त्वं सुदाशनः त्वम्बत्नीत्वं पुरोडाशस्त्वं शाला स्तृक्षस्त्वं स्तुवः ग्राह्वाणः सकलं त्वं हि सदस्यास्त्वं सदाक्षिणः त्वं शूर्पादित्वं च ब्रह्म मुसलो लूकले ध्रुवं त्वं होदा यजमानत्वं त्वं धान्यं पशुयाजगः त्वमध्वर्यौस्त्वमुद्दाद त्वं यज्ञपुरुषोत्तमः दिक्पादादमखिव्यो मध्यौस्त्वं नक्षत्रकारकः देवतिर्यमनुष्येषु जगदेतचराचरं यत्किञ्चित् दृश्यते देवब्रह्माण्डमखिलं जगद तव रूपमिदं सर्वं दृष्ट्यार्थं सम्प्रकाशितं नाथयन्ते परं ब्रह्मदेवे कस्तञ्जानादिविमलम् योगगम्यमदीन्द्रियम् अक्षयम् पुरुषम् नित्यमव्यक्तमजमव्ययम् प्रलयोत्पत्तिरहितं सर्वव्यापिनमीश्वरम् सर्वज्ञम् निर्गुणं शुद्धमानन्दमचरं परम् बोधरूपम् ध्रुवम् शान्तम् पूर्णमद्वैतमक्षयम् अवतारेषु या मूर्तिर्विदूरे देव दृश्यदे परं भावं मजानन्द त्वां भजन्ति दिवौकसः कथं त्वामीदृशं सूक्ष्मं शक्नोमि पुरुषोत्तम अराधयितु ईशानमनोगम्यमगोचरम् इषयन्मण्डले नादपूज्यते विधिवत्क्रमैः पुष्पधूपादिभिर्यत्र तत्र सर्वा विभूतयः सङ्घर्षणादिभेदेन तव यत् पूजिता क्षन्तुमर्हजे तत्सर्वम् यत्कृतं न कृतं मया न शक्नोमि विभो सम्यक् कर्तुम् पूजाम् यथोदिताम् यत्कृतम् जपपोमादि असाध्यम् पुरुषोत्तम विनिष्पादयितुम्भक्रिया अधस्त्वाम् क्षमयाम्यहम् दिवा रात्रौ च सन्ध्यायाम् सर्वावस्थासु चेष्टः अचलादुहरे भक्तिस्तवाङ्घ्रियुगले मम शरीरेर्न तथा प्रीतिर्नश्च धर्मादिकेषु च यदा त्वयि जगन्नाथप्रीतिं रात्यधिगी मम किं ते हृतं कर्म स्वर्गमोक्षादिसाधनम् यस्य विष्णौ दृढाभक्ति सर्वकामफलप्रदे पूजां कर्तुम् तथा स्तोत्रम् कश्शक्नोति तव अुद स्तुतम् तु पूजितं इति चक्रधार इति चक्रधर स्तोत्रम् मया सम्यगुदाहृदम् स्तौ हि विष्णुमुने भक्त्या यदीच्छसि परं पदम् स्तोत्रेणानेन यस्तौति पूजाकाले जगद्गुरुम् अचिराल्लभते मोक्षं चित्वा संसारबन्धनम् अन्योपि योजपेभक्त्या त्रिसन्ध्यं नियतशुचिः इदं स्तोत्रं मुने सोऽपि सर्वकामम् अवाप्नुयाद पुत्रार्थो लभते पुत्रान् बद्धो मुच्यदबन्धनाद रोगाद्विमुच्यते रोगी लपदे निर्धनो धनं विद्यार्थो लभते विद्यां भाग्यं कीर्तिजविन्दति जातिस्मरत्वमेधावी यद्यदिच्छति चेदसा स धन्यसर्ववित्प्राज्ञ ससाधुः सर्वकर्मकृद सत्यवागुचुजिर्दा यस्तौदि पुरुषोत्तमम् असम्भाष्याखिते सर्वे सर्व कर्म बहिष्कृताः येषां प्रवरुदनेनास्ति हरिमुद्दिश्य सत्क्रिया न शुद्धं विद्यते तस्य मनोवाक् च दुरात्मनः आराध्यविधिवद्देवं हरिं सर्वसुखप्रदं प्राप्नोति पुरुष कर्मकामादिकं सर्वं श्रद्धधानः सुरेत्तं सुरोत्तमः असुरादिवपुसिद्धयधेयधेयस्य नान्तरं सकदमुनिभिराद्य चिन्त्य देयो हि शुद्धो निखिलकृदि निविष्टो व्यति यत् सर्वसाक्षी तमजममृदमीशं वासुदेवं नतोऽस्मि भजमरणविहीनं नित्यमानन्दरूपं निखिलभुवननाथं शाश्वतं सुप्रसन्नम् त्वदिभिमलविशुद्धं निर्गुणं भव पुष्पैः सुखमुदित समस्तम् पूजयाम्यात्मभावं विशतुहृदयपद्मे सर्वसाक्षी चिदात्मा एवं मयोक्तम् परमप्रभावमाद्यन्तहीनस्य परस्य विष्णोः तस्माद् विचिन्त्य परमेश्वरोसं विमुक्तिकामेन नरेण बोधस्वरूपं बोधस्वरूपम् पुरुषम् पुराणमादित्यवर्णं विमलं विशुद्धं सञ्चिन्त्य विष्णुं परमद्वितीयम् तस्तत्र योगी य प्रयाति इमं स्तवं यत् सततं मनुष्य पडे च तद्वत्प्रयद प्रशान्तः स धूतपाप्मा विदध प्रभावप्रयादि यः प्रार्थयत्यर्थमशेषसौख्यं धर्मं च कामं च तथैव मोक्षं स सर्वमुद्धृज्य परं पुराणं विष्णुं शरणं वरेण्यं विभुं प्रभुं विश्वधरं विशुद्ध्वमशेषसंसारविनाशहेतुं यो वासुदेवं विमलं प्रपन्नः स मोक्षमाप्नोति विमुक्तः महापुराणे आचारकाण्डे च्युतस्तोत्रं नाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ओ अध्यायं टु हण्ड्रेड् अण्ड् तर्टि फैव् सूत उवाच वेदान्तसाङ्ख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् अहं ब्रह्मपरं ज्योतिर्विष्णुरित्येव चिन्तयन् सूर्ये हृद्व्योम्निवह्नौ तज्योतिरेकं दृधास्थितं यथा सर्पि क्षीरस्थं कवाम्न गुरुदे बलं निर्गतं कर्मसंयुक्तं दत्तं तासां महाबलं तदा विष्णुशरीरस्थो न करो दिहितं नृणाम् विना राधनया देवः सर्वगः परमेश्वरः आरुरुक्षुमदीनां तु कर्मज्ञानमुदाहृतम् आरुढयोगवृक्षाणां ज्ञानं त्यागम्बरं मतं ज्ञातुमिच्छति शब्दादीनाग्रो द्वेषोधजायते लोभो मोहक्रोधयेतुक्तः पापं नरस्तरेद हस्ता उपस्थमुदरं वाक्चदुर्धो चतुष्टयं यदत् सुसंयदं यस्य स विप्रकथ्यते बुधैः परवित्तं न गृह्णाति न हिंसां कुरुते तथा न आक्षक्रीडारदो यस्तु हस्तौ तस्य सुसंयतौ परस्त्रीवर्जनरक्तस्तस्योपस्थं सुसंयतम् अलो लुपमिदं भुङ्क्ते जठरं तस्य संयतं सत्यं हिदम् इदं ब्रूदे यस्माद्वाक् तस्य सभ्यदा यस्य संव्यतान्येतानि तस्य किं तपःसाध्वरैः ऐक्यं यद्बुद्धि मनस्सोरिन्द्रियाणां च सर्वदा सबीजं वापि निर्भोजं ध्यानमेतत् प्रकीर्तिदम् भ्रुगोर्मध्ये स्थितं बुद्धिं विषयेषु युनक्रियः हन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते स्वप्नान् पश्यत्य सौ जीवो बाह्यानाभ्यन्तरानथ जीवो जाग्रदवस्थायामेव माहुर्विपाश्चिताः हृदि स्थितः स तमसा मोहितो न स्मरत्यपि यदा तस्य कुतो वेदि सुषुप्तिरिति कथ्यते जाग्रतो यस्य नो तन्त्रा उत्पाद्य उत्पद्यते न जानाति शब्दार्थविषयान्वची इन्द्रियाणि समाहृत्य वृषये विषयेभ्यो मनस्तथा बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च संयम्यप्रकृतिं चापि चिच्चक्रिया केवले स्थितः पश्यत्यात्मानि च आत्मानमात्मानात्मप्रकाशकम् चिद्रूपममृतम् शुद्धम् निष्क्रियम् व्यापकम् शिवम् तुरीयाय मवत्ताय मास्ति दोसौनसंशयः शब्दादयो गुणपञ्च सत्त्वाद्याश्च गुणास्त्रयः पुर्यष्टकस्य पद्मस्य पात्राण्यष्टौ चान्य च साम्यावस्था गुणकृता प्रकृतिस्तस्य कर्णिका कर्णिकायां स्थितो देवो देहि चिद्रूप एव हि परित्यज्य प्रकृतिम् च गुणात्मिकाम् यदा तदा जीवो यादि संशयः प्राणायामो जपश्चैव प्रत्यहारोधधारणा धा ज्ञानम् समाधिरित्येते षड्योगस्य प्रसाधकाः पापक्षय देवतानां प्रीतिरिन्द्रियसंयमः जपध्यानयुतो गर्भविपरीतस्त्वगर्भकः षट्त्रिंशन्मात्रकश्रेष्ठचतुर्विंशतिमात्रकः मध्यो द्वादशमात्रस्तु ओङ्कारं सततं जपेद वाचके प्रणवे ज्ञादे वाच्यं ब्रह्म प्रसीदति ॐ नमो विष्णवे षष्ठाक्षरश्च जप्तव्यो गायत्री द्वादशाक्षरी सर्वेषामिन्द्रियाणाम् दुः प्रवृत्तिर्विषयेषु च निवृत्तिर्मनसस्तस्य प्रत्याहारप्रकीर्दितः इन्द्रियाणि इन्द्रियार्धेभ्यः समाहृत्य हि दोहि संस्थिताः प्राणायामयुर्द्वादशभिर्यवत् कालकृतो भवेद यस्तावत् कालपर्यन्तं मनो ब्रह्मणि धारयेद् तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादशधारणः तुष्येदने यदो युक्तसमाधिसोऽ दीयते ध्यायन्न मनोभिध्यायदो भृशम् प्राप्यावधिकृतं कालं यावत् साधारणा स्मृता ध्येये सकृतम् मनो यस्य ध्येयमेवानुपश्यति नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्दितं ध्येये मनो निश्चलतां यादिध्येयं विचिन्तयन् यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ध्येयमेव हि सर्वत्र तन्मयदां गदः पश्यति द्वैतरहितं समाधिसोऽभिधीयते मनसङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेद यस्य ब्रह्मणि संलीनं समाधित्तं तदोच्यते ध्यायत परमात्मानमात्मस्तं यस्य योगिनः मनस्तन्मयदां व्याधिसमाधिस्तीर्धिदः दि चित्तस्य सिरदा भ्रान्तिहृदयर्मनस्य भ्रमाददा योगिनां कथिता दोषा योगविघ्नप्रवर्तकाः स्थित्यर्थं मनसः सर्वं सूलरूपं विचिन्तयेत् तद्व्रतं निश्चलीभूतं सूर्यस्तं स्थिरतां व्रजेत न विना परमात्मानं किञ्चित् जगति विश्वरूपं तमे वैदमिति ज्ञात्वा ओंकारं ओङ्कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुं क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रात्रयान्वितं हृदि सञ्चिन्तयेत् पूर्वं प्रधानं तस्य चोपरि तमोरजस्त सत्त्वमण्डलत्रदयं प्रमाद कृष्णरक्षतस्थितं तस्मिन् पुरुषं जीव संज्ञोपरि गुणैश्वर्यमष्टपत्रम् सरोरुहं ज्ञानं तु कर्णिका तत्र विज्ञानं केसरा स्मृता वैराग्यनालं तत्कन्धो वैष्णवो धर्म उत्तमः कर्णिकायां स्थितं विभु ध्याये दुरसि संयुक्तमुरमुक्तिसाधकं ध्यायन्यधि त्यजे प्राणान्यादिब्रह्मस्वसन्निधिम् हरिं संस्थाप्य देहाब्जे ध्यायन्यो गीजभक्तिभाकम् आत्मानमात्मना केचित् पश्यन्ति ध्यानचक्षुषः साङ्ख्यबुद्ध्या तथैवान्ये योगे नान्ये दुयोगिनः ब्रह्मप्रकाशकम् ज्ञानम् भवबन्धविभेदनम् तत्रैकचित्तता योगो मुक्तिदो नात्र संशयः जितेन्द्रियात्मकरणो ज्ञानतृप्तो हि यो भवेद समुतः कथ्यते योगी परमात्मन्यवस्थितः आसनस्तनविधयो न योगस्य प्रसाधकाः विलम्बजनक सर्वे विस्तरपरिकीर्तिताः शिशुपालसिद्धि मा भ स्मरणाभ्यासगौरवाद योगाभ्यासं प्रकुर्वन्तः पश्यन्त्यात्मानमात्मना सर्वभूतेषु कारुण्यमिद्वेषं विषयेषु च गुप्तशिश्रोदरादिश्च कुर्वन् योगी विमुच्यते इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा काष्ठद्रह्मसंलीनो योगी मुक्तस्तदा भवेद सर्ववर्णाश्रिय सर्व कृत्वा पापानि भस्मसाद ध्यानाग्निना च मेधावीलपदे परमां गदिं मन्थनादृश्य देह्य अग्निस्तद्वध्यानेन वैहैः ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः बाह्यरूपैर्णमुक्तिस्तु चान्दस्तु तै स्याद्यमादिभिः साङ्ख्यज्ञानेन योगेन वेदान्तश्रवणेन च प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते महापुराणे आचार्यकाण्डे ब्रह्मविज्ञानस्वरूपणं नाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ओम्